अथद्यशीतितमः सर्गः श्रुत्वा तु भीमनिर्ह्रादम् शक्राशनिसमस्वनम् वीक्ष्यमाणादिशः सर्वादुद्रुपुर्वाणराभृशम् तानुवाच ततः सर्वान् हनूमान् मारुतात्मजः विषण्णवदनान्दीनाम् स्त्रस्तान् विद्रवतः पृथक् कस्माद्विषण्णवदना विद्रवध्वम् प्लवङ्गमाः त्यक्तयुद्धसमुत्साहाः शूरत्वम् क्वनुवोगतम् पृष्ठतोऽनुव्रजध्वम् मामग्रतो याम् तमाहवे शूरैरभिजनोपेतैरयुक्तम् हि निवर्तितुम् एवमुक्ता सुसङ्क्रुद्धा वायुपुत्रेण धीमता शैलशृङ्गान्द्रुमांश्चैव जगृहृहृष्टमानसाः अभिपेतुश्च गर्जन्तो राक्षसान् परिवार्य हनूमन्तमन्वयुश्च महाहवे सतैर्वानरमुख्यैस्तु हनूमान् सर्वतो वृतः हुताशन इवार्चुष्मानदः शत्रुवाहिनी स राक्षसानाम् कदनम् चकारसु महाकपिः वृतो वानरसैन्येन कालान्तकयमोपमः स चाविष्टः कोपेन महता हनूमान् रावणि रथे महतीम् पातयच्छिलाम् तामापतन्तीम् दृष्ट्वैव रथः सारथिना तदा विधेयाश्वसमायुक्तो विदूरमपवाहितः तमिन्द्रजितमप्राप्य रथस्थम् सह सारथिम् विवेशधरणीम् भित्त्वा सा शिलाव्यर्थमुद्यता पतितायाम् शिलायाम् तु निपतन्त्या च शिलया राक्षसामथिता भृशम् तमभ्यधावञ्छतशो नदन्तः काननौकसः ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः क्षिपन्तीन्द्रजितम् सङ्ख्ये वानरैस्तैर्महाभीमैर्घोररूपा निशाचराः वीर्यादभिहता वृक्षैर्व्यचेष्टन्तरणक्षितौ ससैन्यमभिवीक्ष्य अथ वानरार्दितमिन्द्रजित् प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ सशरौघानवसृजन् स्वसैन्येनाभिसंवृतः जघानकपिशार्दूलान् सुबहून् दृढविक्रमः शूलैरशनिख्ग पट्टिशूल मुगर ते चाप्युचराजघ्नुराह सुस्कंधबिटप शैल शिला महाबल हनू कदनमचक्रे रक्षसा भीमकर्मणा सन्निवार पानीकम्रवीतान्मनौकसाह हनूम सन्नीवर्तध्व नन साध्यदम बल त्यक्त्वा विचेष्टं तो रामप्रियचिकीर्षवः यन्निमित्तम् हि युध्यामो हता साजनकात्मजा जनकात्मजा इममर्थम् हि विज्ञाप्य रामम् सुग्रीवमेव च तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् इत्युक्त्वा वानरः श्रेष्ठो वारयन् सर्ववानरान् शनैः शनैरसन्त्रस्तः सबलः सन्न्यवर्तत ततः प्रेक्ष्य हनोमन्तम् व्रजन्तम् यत्र राघवः स हो तु कामो दुष्टात्मा गतश्चैत्यम् निकुम्भिला निकुम्भिलामधिष्ठाय पावकम् जुहवेन्द्रजित् यज्ञभूम्याम् ततो गत्वा पावकस्तेन रक्षसा भूयमानः प्रज्ज्वालहोमशोणितभुक्तदा सार्चिः सन्ध्यागत इवादित्यः सु तीव्रोऽज्ञः समुत्थितः अथेन्द्रजिद्राक्षसभूतये तु जुहावहव्यम् विधिना विधानवित् दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डेऽद्यशीतितमः सर्गः